संहितापाठम् अस्येदिन्द्रो मदेश्वा विश्वावृत्राणि जिघ्नतये शूरोमघा च मंहतये अस्येदिन्द्रो मदेश्वा विश्वावृत्राणि जिघ्नतये शूरोमघा च मंहतये अस्येदिन्द्रो मदेश्वा विश्वावृत्राणि जिघ्नतये शूरोमघा च मंहतये